रमणीये वनोद्देशे रममाणोऽर्जुनस्तदा तपस्युग्रे वर्तमान उग्रतेजा महामनाः दर्भचीरन्निवस्याथ दण्डाचिनविभूषितः शीर्णञ्च पतितं भूमौ पर्णं समुपयुक्तवान् पर पूर्णे पूर्णे त्रिरात्रे तु मासमेकं फलाशनः द्विगुणेन हि कालेन द्वितीयं मासमत्ययात् तृतीयमपि मासं सपक्षेणाहारमाचरन् चतुर्थे त्वतः सम्प्राप्ते मासे भरतसप्तमः वायुभक्षो महाबाहुरभवत्पाण्डुनन्दनः सदो सदोपस्पर्शनाच्छास्य बभूरमितौजसः तास्तस्य महात्मनः ततो महर्षयः सर्वे जग्मुर्देवं पिनाकिनं निवेदयिषवः पार्थं तपस्युग्रे समास्थितं, तं प्रणम्य महादेवं शशंसुः पार्थकर्म तत् एष पार्थो महातेजा हिमवत्पृष्ठमास्थितः उग्रे तपसि दुष्पारे स्थितो धूमाय यन्दिशः तस्य देवेशन न वयं विद्मः सर्वे